प्रश्नोपनिषत् अथर्ववेदं पिप्पलादशाखा ब्राह्मणं प्रश्नोपनिषत् पिप्पलादमहर्षि ईस् आन्सरिङ्ग् क्वस्टिन्स् आफ् द फालोयिङ्ग् सिक्स् महर्षीस् दट् इस् वै दिस् उपनिषत् इस् काल्ड् प्रश्नोपनिषत् महर्षिस्सुकेश सत्यकामा शौर्यायणि आश्वलाय भार्गव अण्ड् महर्षिकबन्धि शान्तिपाठम् ओ भद्रं कर्णेभिशृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः ैरङ्गैः स्तुष्टुवां स्वस्तनूभिः व्यशेमदेव हि दयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः बृहस्पतिर्दधातु ओम शांशाशा अध प्रथम प्रश्न ओ सुकेशाच सत्यकाम भारद्वाजश्य सत्यम कौसल्यश्च चाघ्यकौसल्यनो भार्गवो वैदर्भ कबन्धी कात्यायनस्ते कैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा येषः वै तत्सर्वं वक्ष्यतीति तेः समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः तान् हसऋषिरुवाजभूय एव तपःसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथा कामं प्रश्नान् पृच्छदयदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति अध कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुदोह वा इमाः प्रजाः प्रजायन्त इति तस्मै सहोवाच प्रजाकामो वै तप्यतस प्रजापदिस्स तपोतप्यतसस्तपस्तप्त्वा समिथुनमुत्पादयदेरयिञ्च प्राणञ्चेत्येदौ दौमे बहुधा प्रजाकरिष्यद इति आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा येदत्सर्वै चामूर्तं च तस्मान्मूर्तिरेव रयिः अधादित्य उदयन्यत्प्राचीन्दिशं प्रविशदि तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते यद् दक्षिणा यत्प्रतीची यद यदुदीची यदधो यदूर्ध्वै यदन्तरादिशो यत् यद सर्वं प्रकाशयदि तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयदे विश्वरूपं हरिणं जाधवे दशं परायणं ज्योतिरेकन्तपन्तं सहस्ररश्मिशदधा वर्तमानः प्राणप्रजानामुदयत्येष सूर्यः संवत्सरो वै प्रजापदिस्तस्यायने दक्षिणञ्चोत्तरं तद्येहवै वै तदिष्टमूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते तयेव पुनरावर्तन्ते तस्मादे ते ऋषय्यः प्रजाकामदक्षिणं प्रतिपद्यन्ते एषः अधोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते ये दद्वै प्राणानामायतनमे ददमृतमभयमेदत्परायणमेदस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेशश्लोकः पञ्चपादम् पितरन् द्वादशाकृतिन् दिव आहुः परे अर्धे पुरीषिणम् अधे मे अन्य उपरे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति मासो वै प्रजापतिस्तस्य कृष्णपक्षये वरयि शुक्लप्राणस्तस्मादे ऋषयशुक्लयुष्ठिं कुर्वन्तीतर इतरस्मिन् अहो रात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा येदे प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते अन्नं वै प्रजापतिस्तदोह वै प्रजा प्रजा इति अद्ये कवैतत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते तेषामेवैष ब्रह्मलोको येषान्तमो ब्रह्मचर्य येषु सत्यं प्रतिष्ठितं तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतन्नमायाचेति मा ओ अधद्वितीयप्रश्नः अधहैनं भार्गवो वैदर्भिः पप्रच्छ भगवन् कत्येव देवा प्रजां विधारयन्ते कतरये दत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति तस्मै सहो वाचाकाशो काशो हवा एष देवो वायुरग्निरापपृथिवी वाङ्मनश्चक्षुश्रोत्रं ते प्रकाश्याभिवदन्ति वयमे दद्बाणमवष्टभ्यविधारयामः तान्वरिष्ठप्राण उवाच मामोकमापद्यथा कमे वै तत्पञ्चथात्मानं प्रविभज्यै तत् बाणमवष्टभ्यविधारयामीति ते श्रद्धधानाबूवुः सोऽभिमाना दूर्ध्वुत्क्रामत इव तस्मिन्नुत्क्रामत्यधेतरे सर्वोत्क्रामन्दे तस्मिंश्च प्रदिष्टमाने सर्वप्रदिष्टन्दे तद्यथा मक्षिका मधुकर राजानमुत्क्रामं सर्वोत्क्रामन्दे तस्मिंश्च प्रदिष्टमाने सर्वा एव प्रादिष्टन्त एवं वाग्मनश्चक्षुःश्रोत्रं च ते प्रीता प्राणां स्तुन्वन्ति येषोऽग्निस्तपत्येष सूर्य एष ये पर्जन्यो मघवानेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृदञ्च अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितं ऋजो यजुंषितामानि यज्ञः क्षत्रं ब्रह्म च प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे तुभ्यं प्राणः प्रजास्त्विमा बलिं हरन्दियः प्राणैः प्रतिष्ठसि देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ऋषीणाञ्चरिदं सत्यमधर्वाङ्गिरसामसि इन्द्रस्त्वं प्राणते जसा परिरक्षिता त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः यदा त्वमभिवर्षस्य प्राणते प्रजाः आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति व्रात्यस्त्वं प्राणैकर्षिरता विश्वस्य सत्पतिः वयमाद्यस्य दातारः पिता त्वं मातरिश्वनः या च मनसि सन्तता शिवान् तां कुरु मोत्क्रमीः प्राणस्येदंवशे सर्वं त्रिदिवेयत्प्रतिष्ठितं मादेवपुत्रान् रक्षस्वश्रीश्च प्रज्ञाञ्च विधेहि इति अध तृतीयः प्रश्नः अधहैनङ्कौसल्यश्चाश्वलायनः पप्रच्छ भगवन्कुदयेष प्राणो जायते कदमायात्यस्मिन् शरीर आत्मानं वा प्रविभज्य कथं प्राधिष्ठदे केनोत्क्रमदे कथं बाह्यमभिधत्ते कथमध्यात्ममिति तस्मै स होवाचादिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीदि तस्मात्तेऽहम्ब्रवीमि आत्मान एष प्राणो जायते यथैषा पुरुषेच्छायैतस्मिन्ने तदा तदं मनोहृदे नायात्यस्मिन् शरीरे यथा सम्राडे वाधिकृतान्विनियुङ्क्ते येदान् ग्रामा ये ग्रामाने ग्रामान् अधिष्ठस्वेत्येव मे वैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते पायूपस्थे पानञ्चक्षुश्रोत्रे मुखनासिकाभ्यां श्रोत्रे प्रधिष्ठदे मध्ये दुःसमानः येष ह्ये दद्धुतमन्नं समन्न यदि तस्मादेदः सप्तार्चिषो भवन्ति हृदि ह्येष आत्मा अत्रैददेकश दन्नाडीनां तासां सप्त देर्ध्वा सप्तदिप्रतिशाखा नाडीसहस्राणि भवन्त्या सुव्या नश्चरधि अधैकयोर्ध्व पापमुभाभ्यामेव मनुष्यलोकम् आदित्योह वैबापाण उदयते शह चाक्षुषं प्राणमनुगृहण पृथिव्यादेवता सैषा पुष्श से पनम्ष्यारा यदाश सुव्या तेजोगवा उदानस्तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः यच्चित्तस्ते नैषप्राणमायादिप्राणस्तेजसायुक्तः सहात्मना यथा सङ्कल्पितल्लोकन्न यदि य एवं प्राणं वेदनहास्य प्रजा यदे मृदो उत्पत्ति मा यदिं स्थानं विभुत्वं चैव पञ्चधा अध्यात्मञ्चैव प्राणस्य विज्ञाया मृदमश्नुदे विज्ञाया मृदमश्नुद इति अध चतुर्धप्रश्नः अध हैनं सौर्यायणी गार्ग्यः पप्र भगवन्नेतस्मिन्पुरुषे कानिस्वपन्ति कान्यस्मिन् जाग्रति कदरयेष देवस्वप्नान् पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति तस्मै सहोवाच यथा गार्ग्यमरीचयोर्कस्यास्तच्छदसर्वा यदस्मिं स्तेजोमण्डलयेगीभवन्ति काः पुनः पुनरुदयद भवैतत्सर्वं परे मनस्येकी भवति तेन सर्ह्येष पुरुषो न शृणोति न पश्यति न न रसयते न ना नादत्ते ना नानन्दयदे न ना विसृजदे पित्याचक्षते प्राणाग्नय एवैतस्मिन्पुरे जाग्रदि गार्हपत्योह वा येषोपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयप्राणः यदुच्छ्वासनिच्छ्वा समानः मनोहवावयजमानयिष्टफलमेवोद्धानः स येन यजमानमहर हर्ब्रह्मगमयति अत्रैष देवः स्वप्ने महिमानमनुभवति यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुसृणोदि देशदि पुनः पुनः प्रत्यनुभवति धृष्टं चाधृष्टं च श्रुतं च सच्चा सच्च सर्वं पश्यति सर्वः पश्यति स यदा तेजसाभिभूतो भवत्यत्रैषदेव स्वप्नान्न पश्यत्यथ तदैतस्मिं शरीरे ये भवति सयथा सौम्यवयं शिवासो वृक्षं सम्प्रतिष्ठन्ते एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते पृथिवी च पृथिवीमात्रा मात्रा च तेजश्च तेजोमात्रा ते च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यञ्च श्रोत्रं च श्रोतव्यं चक्राणं चक्रातव्यं च रसश्च च त्वक्चस्पर्ति रसश्च यञ्च रसश्च रसश्च रसयितव्यं च त्वक्चस्पर्शयितव्यञ्च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्तश्चानन्दयुश्च विसर्जयितव्यञ्च पादौ च गन्तव्यं च मनश्च मन्तव्यञ्च बुद्धिश्च बोद्धव्यञ्चाहङ्कारश्चाहङ्कर्तव्यञ्च चित्तञ्च चेतयितव्यञ्च तेजश्च विद्योतयितव्यञ्च प्राणश्च विधारयितव्यञ्च येष हि द्रष्टा स्पृष्टा श्रोताक्रादारसहिता मन्दा बोद्धा कर्ता विज्ञानात्मा पुरुषः सपरेक्षर आत्मनि सम्प्रतिष्ठते परमेवाक्षरं प्रतिपद्यते स तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेद य धेयस्तु सोम्य स सर्वज्ञः सर्वो भवति तदेष श्लोकः विज्ञानात्मा सह देवैश्च सर्वैः प्राणाभूतानि तदक्षरं वेद यदे यस्तु सोम्यस सर्वज्ञः सर्वमेवाविवेशेति अथ पञ्चमः प्रश्नः अध हैनं शैभ्यः सत्यकामः पप्रच्छ स कथमं वा वसते न लोकञ्जयतीति तस्मै सहोवाच एतद्वै सत्यकामपरञ्चपरञ्च ब्रह्म यदोङ्कारः तस्माद्विद्वानेदेनैवा यतनेनैकतरमन्वेति स यदमात्री मा दशते नवेदीस्तूर्ण मेव्याम संपदो मनुष्यलोकनय सतसा ब्रह्मचर्य श्रद्धया महिमान महिमुभव अद यदि द्विमात्रेण मनसि सम्पद्यते सौन्दरिक्षय्यजुर्भिरुन्नीयदे सोमलोकं ससोमलोके सोमलोके विभूतिमनुभूय पुनरावर्तते यः पुनरेदन्त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीदस तेजसि सूर्ये सम्पन्नः यदा पादोदरस्त्वजा विनिर्मुच्यत एवं ह वै सपात्मना विनिर्मुक्तः ससामभिरुन्नि यदे ब्रह्मलोकं स यदस्माज्जीवखनात्परात् परं पुरिशयं पुरुषमीक्षदे तदेतौ तिस्रो मात्रा मृत्युमत् त्यप्रयुक्ता अन्योन्यशक्ता अनविप्रयुक्ताः क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः हृग्भिरेदय्यजुर्भिरन्तरिक्षं वेदयन्ते समोङ्गारेणैवायतनेनान्वेदि विद्वान्यत्तच्छान्दमजरमृदमभयं परञ्चेति अध षष्ठः प्रश्नः अध हैनं सुकेशभारद्वाजः पप्रच्छ भगवन्हिरण्यनाभकौसल्यो राजपुत्रो मामुपेत्य इदं प्रश्नमपृच्छद षोडशकलं भारद्वाजपुरुषं वेद्धतमहङ्कुमारमब्रुवन्नाहमिमं वेद यद्यहमिममवेदि शङ्कधन्ते नावक्ष्यमिति समूलो वा परिशुष्यति यो नृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुं सतोष्णीं रथमारुह्य प्रवव्राज तन्द्वा पृच्छामि क्वा सौ पुरुष इति तस्मै सहोवाच इहैवान्तःशरीरे सोम्यस पुरुषो यस्मिन्नेदाशोडशकलाः प्रभवन्तीति स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रदिष्टिदे प्रदिष्ठास्यामीति सप्राणमसृजदप्राणाच्छ्रद्धाङ्खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः अन्नमन्ना द्वीज्यन्तपो मन्ध्राकर्मलोका लोकेषु च नाम च सयधेमानद्यस्यन्तमाना समुद्रायणसमुद्रं प्राप्यास्तच्छन्ति भिद्येदे तासान्नामरूपे समुद्र इत्येवं प्रोच्यते एवमेवास्य परिद्रष्टुरिमाशोडशकला पुरुषायणा पुरुषं प्राप्यास्तन्ति भिद्येते चासान्नामरूपे पुरुष इत्येवं प्रोच्यते स एषो कलो मृदो भवदि तदेश अरा इव कलायस्मेन कला यस्मिन्प्रतिष्ठिताः तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यधा इति तान् होवाचैतावदेवाहमे तत् परं ब्रह्मवेदनाधः परमस्तीति ते तमर्चयन्तस्त्वं हिनपिदा नः पिधा योऽस्माकमविद्यायाः परं पारं तारयसीति नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॐ शान्तिशान्तिः